ॐ परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भगवते महापुराणे सप्तमस्कन्धे एकत्रिंशोऽध्याय है जन्मेवाच धरा धराधीशमौलौ आविदासीत् परमहे यदुक्तम् भवता पूर्वं विस्तर तद्वदसमे को विरज्येत विपञ्चक्ते कथामृतं सुधान्तु पिबता मृत्युः स नैतच्छृण्वतो भवेत् दासोवाच धन्योऽसि कृतकृत्योऽसि शिक्षितोऽसि महात्मभिः भाग्यवानसि यद्देव्याम् निर्व्याजा भक्तिरस्थिते शृणुराजन् पुरावृत्तं सति देहेऽग्निभर्जिते दात शिवस्तु बभ्रामे भवते, स्थिरो भवत् प्रपञ्च भरहितः समाधि गतमानसः जायन् देवि स्वरूपं तु कालं निन्ये स आत्मान् सौभाग्यरहितं त्रैलोक्यं सचराचरम् शक्तिहीनं जगत् सर्वं साध्यद्वीपं सपर्वतम् आनन्दं शुष्कतां जातः सर्वेषां हृदयान्तरे उदासीनः सर्वलोकाश्चिन्ता जर्जरचेततः सदा दुःखो दधो मग्ना रोगग्रस्तास्त भवन् ग्राणां देवतानां च वैपरीत्येन वचनम् अधिभूताधिदेवानां सत्यभावान् नृपाभवन् तथास्मिन्नेव काले तु तारकाख्यो महासुरः ब्रह्म दत्तव रोदय अभवत् त्रैलोक्यनायकः शिवोरसः तूयः पुत्रः सते हन्ता भविष्यति इति कल्पितमृत्युष देवदेवै महासुरः शिवोरसुता भावत् जगजय च न तेन पदृता सर्वे सुरा, स्वस्था प्रच्युतासुरा शिवोरसुता भावत् चिन्ता मापुर्दुरत्ययां स्यास्ति, कथं तत् सुतसं भव अस्माकं भाग्यहीनानां कथं कार्यं भविष्यति इति चिन्तातुरः सर्वे जगमो वैकुण्ठमण्डले च सन्तोर्हरिमेकान्ते स चोपायं जगादः कुतः चिन्तातुरः सर्वे कामः कल्पद्रुमा शिव जगति मणिद्वीपाधिवासिनी अस्माकं मनय देव तदुपेक्षास्ति तन्यथा शिक्षैवेयं जगन्मात्र कुतस्मत् शिक्षणाय च लाभम् वेतान्वे न कारुण्यं यथार्भके तद्वदेव जगन्मातुर् नियन्त्र्याय गुणदोचयोः अपराधो भवत्येव तनयस्य पदे पदे कोपरः से लोके केवलम् मातरम् विना तस्माद्योयं पदां भान्ताम् शरणं यातमाचरम् निर्व्याजया चित्तवृत्या सा भैः कार्यं विधास्यते इत्यादिश्च सर्वान् संयुतो निर्जगामाशु देवैः सहसुराधिपः आजगामशैलम् हिमवन्तं नगाधिपम् अभवश्च सुरा सर्वे पुरश्चरणकर्मिणः अम्बायज्ञविधान्या द्न्य अम्बायज्ञं च चक्रिरे तृतीया देवतान्यासु चक्रो सर्वे सुरान् नृप केचित् समाधि निष्णाता है नाम नामपरायणः केचित् सूक्त परः केचिन् नाम पारायणोत्सुकाय पन्त्रपारायण परा, केचित परा केचित, केचित है केचित् वृक्षाधिकारिणः अन्तर्याग परः केचित् केचित् ध्यासपरायणः ऋल्लेखया परा शक्तिः पूजां चक्रु अतन्द्रिताय इत्येवं बहुवर्षाणि काले कालो गाजन्मे जय पद्मा चैत्रमासीय नवम्यां च भ्रुवोर्जिने प्रादुर्बभूव पुरतः तन्महे श्रुतिबोधितं चतुर्दिक्षु चतुर्वेदे मूर्तिमभ्ये अभिष्टम् कोटि सूर्यपतेकाशम् चन्द्रकोटि सुशीतरम् विद्युत्कोटि समानाभम् अरुणम् तत्परं मह नैव शोधं न चिर्यक्षे न परिजग्रवत अद्यतरहितं तत्तु न संयुतं न च न पुंरूपमसो भयम् नित्यापिधानं नेत्राणां तेषाम् मासिन्महीपते पुनश्च धैर्यमालम्ब्य यावत् ददृशसुरः तावत्तदेव स्त्रीरूपेण आबाधिव्यं मनोहरम् अतीव रमणीयाङ्गिम् कुमारीं नवयौवनाम् उद्यत्तेन कुचुद्धे निन्दिताम् भोज कुण्डत् किं किणि काजालय शिञ्जन् शिञ्जन् मन्दिर मेखलाम् कनकाङ्गजकेयूर दैवक जलबन्ध विराजिताम् चनकेतक सम्राजन् मरकुन्दलां नितम्ब बिम्ब सुभगा ओम राजे विराजिता चर्पूर शकलो मित्र ताम्बूलपुरिताननाकनकटाङ्क विदनाम्बुजाम् अष्टमी चन्द्र बिम्बाभ ललाटा माय तुवं रक्तारविन्द नयनाम् मधुरां मधुराधरा दन्तागरां मुक्ताहार विराजतां रत्नसाम् भिन्न मुकुटां चन्द्ररेखावतन्तु मल्लिकामालती महाराज केशपाशे चतुर्बाहुं त्रिलोचनां रक्तवस्त्रे परिधानम् दाडिम्बि कुसुमप्रभाम् सर्वशृङ्गारे षढं सर्वदेव सर्वा नमस्कृताम् सर्वाशा सर्वं मातरं सर्व मोहिनीम् प्रसाद सुमुखीम् अम्बाम् अव्याब्जय करुणामूर्तिम् ददृशः पुरतः सुरः दृष्ट्वा तां करुणा मूर्तिम् प्रणेमू सरः वक्तुं न शक्नुवन् किञ्चित् कथञ्चित् स्थैर्यमालम्ब्य भक्त्या चानतकन्धरः प्रेमासु ो जगदम्बिकाम् देवावोचः नमो देवे महादेवे शिवायै सततं नमः नमः प्रकृत्यै भद्रायै नियताय प्रणतास्मदाम् तामग्निवर्णां तपसा चलन्तीं वैरोचनीं कर्मफले चजुष्टाम् दुर्गां देवीं चरणमहं प्रपद्ये सुतरसितरसे नमः देवीं वाचं जनयन्त देवा सान् विश्वरूपाः पशो वदन्ति सा नो मन्द्रे च मूजन् दुहाना धेनुर्वागस्वाम् उपसुष्टुतयतु बालरात्रिम् ब्रह्मसुताम् सरस्वतीं धीतिं दक्षु तु इतरं न म पावनां शिवाम् महालक्ष्म्ये च विद्महे सर्वशक्त्ये च धीमहि तन्नो देवी प्रचोदयात् नमो विराष्टरूपिण्यै नमः सूत्रात्ममूर्तये नमो व्याकृतरूपण्यै नमः श्रीब्रह्ममूर्तये यदज्ञानाज्जगद्भाति रज्जु सर्पसृगादिवस यद् ज्ञानाद् नमस्ताम् नमस्तात्पदक्षासां चिरेकरसरूपिणीम् अखण्डानन्द रूपान्ताम् वेद सात्त्वर्य भूमिकां पञ्चकोशात् लक्षार्थं प्रत्यगात्मस्वरूपिणीं न प्रणवरूपायै नमो हृङ्कारमूर्तये नानामन्त्रात्मिकायै ते करुणायै नमो नमः तदा देवै मणिद्वीपाधिवासिने प्रह वाच मधुरया मत्कोकिल निराय देवी उवाच वदन्तु विवधा कार्यं यदा वरदाहं तदा भक्तः कामकल्पे तिष्ठन्त्याम्मयिका चिन्ता युष्माकं भक्तिचारिणां समुद्धरा मे बद्भक्तां दुःखसंसारजागरात् इति प्रदीन्याम्भे सत्याम् जानीथ विबुधोत्तमः इति प्रेमाय कुलां वणिं श्रुत्वा सन्तुष्टमानसः निर्भया निर्जराजम् ऊचु दुःखं स्वकीयकम् देवा ऊचुः न ज्ञातं किञ्चिदप्यत्र भवत्यागत्रे सर्वज्ञेया सर्वदा श्रीरूपिण्ड परमेश्वरी सुरेन्द्रेण पीडितः स्तु दिवानिशम् शिवाङ्गजा वधस्तस्य निम्बितो ब्रह्मणा शिवे शिवाङ्गना तु नैवासु जानासि त्वं महेश्वरे सर्वज्ञ पुरसः किं वक्तव्यं पामरे जनैः एतदुद्देशतः प्रोक्तम् अपरं तर्कयाम्बिके सर्वदा शरणां भोजे पक्ति स्यात् तव निश्चलाय प्रार्थनीयमिदम् अपरं देहये तवे इति तेषां वच श्रुत्वा परमेश्वरी मम शक्ति सुया गौरी भविष्यति हिमालये शिवाय सा पथे या स्यात् सा भक्तिर्मश्चरणं भोजे भूयाद्युष्माकमादरात् हिमालयो ये मनसा मामुपासेति भक्तितः तदस्तस्य गृहे जन्मे मम प्रिये करम्बम् वासोवाच हिमालयोऽपि तत् श्रुत्वा अनुग्रहे करम् पार्श्वे संवृद्धे कण्ठाक्षौ महाराज्ञीं वचो ब्रवीते महत्तरन्तु पुरुषे यस्य नुग्रहमिच्छसि नो चेत् क्वहं जलस्थाणुः क्वचित् स्वरूपिणी असम्भाव्यं जन्मशते तत्पित्रोत्सम् ममानघे अश्वमेधादिपुण्य पुण्यर्वा पुण्यर्वासमाधिजी अद्य प्रपञ्चे कीर्ति स्यात् जगन्माता सुता भवत ओहो विमालयस्यास्य धन्यो सौभाग्यवानिति ये च सन्ति ब्रह्माण्डानां च कोटये सैव यस्य सुधा दाताय को वा स्यात् तत्समो भुवे न जानेस्मि न जानेस्म तिशुरां किम् तानं निर्मितं परम् एतादृशानां वासाय एष इदं यथा च दत्तं मे कृपयापि प्रेमपूर्णया सर्ववेदान्तसिद्धं च सद्रूपं ब्रूहि मे तथा योगं च भक्तिसहितम् त्वमेवहं यतो भवेः इति तस्यैव च श्रुता प्रसन्न वक्तुमारभताम्बासा रहस्यं गोहितम् इति श्रीमद्देवी भागवते महापुराणे चादृश्यां स्वहितायाम् सप्तमस्कन्धे हिमालये गृहे पार्वती जन्मविषये देवी प्रति देवी कदनवर्णनं नाम एकत्रिंशोऽध्याय श्रीजगदम्बिकायार्पणमस्तु